हरि ओम् श्रीसीतारामचन्द्राभ्यां नमः अथ अध्यात्मरामायणे बालकाण्डे सप्तमः श्री श्रीमहादेव उवाच अथ गच्छति श्रीरामे मैथिलायोजनत्रयं निमित्तानि अतिघोराणि ददर्श नृपस नावसिष्ठम् पप्रच्छ किमिदम् मुनिपुङ्गव निमित्तानि ह दृश्यन्ते विषवाणि समन्ततः वसिष्ठस्थम् अखप्रः भयम् आगामि सूच्यते पुनरप्य भयं तेज्य शीघ्रम् एव भविष्यति मृगाप्रदक्षिणम् यान्ति पश्य तां शुभ सूचकाः तरो पासु तररो मुश्य चक्षुषि सर्वेश्रजर्शाग्रे तेजो राशेम मुस्थित कोटि सूर्य प्रति विद्युत पुंज समप्रभं, तेजो राशि द दर्शा जामद प्रतापवाघ निभम प्राशु कटामण्डलमण्डितम् धनुपरशु पार्णिञ्च साक्षात् कालम् यवान्तकम् कार्तवीर्यान्तकम् रामम् मर्दनं। प्राप्तम् दशरथस्याग्रे कालमृत्युम् युवापरम् तं दृष्ट्वा भयसन्त्रस्थो राजा दशरथ तदा अर्ह्यादिपूजाम् विस्मृत्य त्राहि त्राहि इति चाब्रवीत् दण्डवत् पुत्रप्राणं प्रयच्छवे, प्रयच्छ भे इति ब्रुवन्तम् राजानम् अनादृत्य रघुत्तमम् उवाच निष्ठरम् वाक्यम् क्रोधात् प्रचलितेन्द्रियः तं राम इति नाम्ना मे क्षत्रियाधम द्वन्द्वयुद्धम् प्रयच्छासु यदि तम् क्षत्रियोति वै पुराणम् जर्जरम् चापम् भङ्क्त्वा कत्थसे मुधा अस्मिन् तु वैष्णवे चाप आरोपयिष चेद्गुणम् तदा युद्धम् तया साधम् करोमि रघुवंशज नो चेत् सर्वान् हनिष्यामि क्षत्रियान्तकरो ह्ययम् इति ब्रुवति वै तस्मिन् चचार वसुधा भृशम् अन्धकारो बभूवाथ सर्वेषामपि चक्षुषाम् रामो दाशिर्वीरो वीक्ष तम् भार्गवम् वृषा धनुराच्छिद्य तत् हस्तात् आरोप्य गुणमञ्जस तूणेरबाणमादाय सन्धाय कृष्य वीर्यवान् उवाच भार्गवम् रामं शृणु ब्रह्मन् वचो मम लक्ष्यं दर्शय बाणस्य ह्यमोह मम सायकः लोकान् पादयुगं वापि वद शीघ्रं ममाज्ञया अयं लोकपरोवाथ त्वया गन्तुं न शक्यते एवं तं हि प्रकर्तव्यं वद शीघ्रं ममाज्ञया एवं वदति श्रीरामे भार्गवो विकृताननः संस्मरन् पूर्ववृत्तान्तं इदं वा च नब्रवीत् राम राम महाबाहो च पुरुषं विष्णुं। जगत् बाल्येहं तपसा विष्णुं। आराधयितु मञ्जसा चक्रतीर्थं शुभं गत्वा तपस विष्णु मन्वहम् अतोषयम् नारायणं मनन् ततः प्रसन्नो देवेश शङ्खचक्रगदाधर उवाच मां रघुश्रेष्ठ प्रसन्नमुखपङ्गजः श्रीभगवान् उवाच उच्च तपसो ब्रह्मन् फलितं ते तपो महेत् मच्चिद्दंशेन युक्तर्थं जहि है हैव पुङ्गवां कातवीर्यं यदर्थं तपसश्रमः तत् श्री सप्त कृतस्थम् हत्वा क्षत्रियमण्डलम् कृत्ना भूमिं कश्यपाय दत्त्वा शान्तिमु भावः श्रेता मुखे दशरथी भूत्वा रामोहमव्ययः उत्पस्ये परया शक्त्या सदा द्रक्ष्यसि भान्ततः मत्ते जः पुनरादास्ये त्वयि दत्तं मया पुरा तदात्तपश्चरन् लोके तिष्ठ तं ब्रह्मणो दिनम् इत्युक्त्वा तर्दधेदेव तथा सर्वं कृतं मया स एव विष्णुस्त्वं राम ताप्तोऽसि ब्रह्मणार्थितः मयि स्थितं तु तत्तेज सयैव पुनरावृतम् अद्य मे सफलं जन्म प्रतीतोऽसि मम ्रह्मादिभिरव्यस्तम् प्रकृते पार गोमतः त्वयि जन्मादिषड् भाव न सन्त्यज्ञानसम्भव निर्विकारोऽसि पूर्णस्त्वम् गमनादि विवर्जितः यथा जले तेन जालम् धूमो वह्नो तथा त्वयि त्वदाधारात् त्वद्विषय माया कार्यं यावन् मायावृता लोका तावत् तां न विजानते अविचारितसिद्धेशा अविद्या विद्या विरोधिनी अविद्या कृतदेहादि संघाते प्रतिबिम्बिता चिच्छक्ति जीव लोकेऽस्मिन् जीव इत्यभिधीयते यावद्देह मनःप्राण सुखदुःखादिभाग् भवेत् आत्मन संस्कृतिः नास्ति बुद्धिर्ज्ञानं न जाति अविवेकाद्वयं युङ्क्त्वा संसारीति प्रवर्तते जडस्य चित्तमायोगात् चित्तं भूयाचित् तथा जलसङ्गात् जड तं हि जलागृहोर्मेलनं यथा यावत्तत्पादभक्तानां सङ्गसौख्यम् न विन्दति तावत् संसारोगान् न निवर्ते नरः सदा तत्सङ्गदाम् समुपासते तदा मायाश निर्यासि दानवम् प्रतिपद्यते तत स ज्ञानसम्पन्नः सद्गुरु तेन लभ्यते वाक्यज्ञानम् गुरुर्लब्ध्वा तत्प्रसादान् विमुच्यते तस्मात् तद्भक्तीनाम् कल्पकोटीशतैरपि न मुक्तिशङ्का विज्ञान शङ्का नैव सुखम् तथा अतस्तत्पादयुगले भक्तिर्मे जन्म जन्मनि स्यात्त्वद्भक्तिमतां सङ्गो अविद्यायाभ्यां विनश्यति लोके तद्भक्तिनिरता तद्धर्मामृतवर्षिणः पुनन्ति लोकमखिलम् किं पुनः सकुलोद्भवान् जगतां नाथ नमस्ते भक्तिभावन नमस्कारुणिकान्त रामचन्द्र नमोस्तु ते देव यद्यत्कृतं पुण्यं मया लोक जिगीषया तत् सर्वं तव बाणाय भूयाद् रामः नमोस्तु ते ततः प्रसन्नो भगवान् श्रीरामः करुणामयः प्रसन्नोऽस्मि तव ब्रह्मन् यत्ते मनसि वर्तते तस्येतदखिलम् गामम् मा कुरुष्वात्र संशयम् तदप्रीते न मनसा भार्गवो रामम् अब्रवीत् यदी ग्रहो राम तवास्ति मधुसूदन तद्भक्तसङ्गत्पादुये दृढा भक्तिः सुधास्तु मे प्रोतमेतत् पठेद्यस्तु भक्तिः नोऽपि सर्वदा तद्भक्ति तस्य विज्ञानम् भूयाद् अन्ते स्मृतिस्तव परिक्रम्य प्रणम्य तम् पूजित राजा दशरसो हृष्टो रामम् वृत्तम् आलिङ्गलिङ्ग्य हर्षेण नेत्राभ्याम् जलमुच्छ्रयत् तत् प्रीते न मनसा स्वस्थ चित्त पुरं ययो राम लक्ष्मण शत्रुघ्न देव संमिता स्वाम् भार्यामपादाय श्रेमिरे स्व मन्दिरे मातापितृभ्यां संवृष्टौ राम सीता श्रेया सह यथा हरी युधाजिन्नाम कैकेयी भ्राता भरतमा तुलह भरतम भरत नेतुमागछ स्वराज्यम प्रीति संयुक्त प्रेशयामा सरतम राजा स्नेह समित शुघ्नम चापूज्य युधा जीत तमिंदमर कौसल्या शुशु देवी रामेण सह देवमातेव देवमात्रेव पोलोम्या शाचक्रेण शोभना साकेते केते लोकनाथ गुणगणो लोकसङ्गीतकेति श्रीराम सीतया स्त्रीखिल जनग्निकरा नन्द सन्दोहमूर्ति नित्यश्री निर्विकारो निरवधिभवो नित्यमाया निरासो माया कार्यानुसारी मनुर्जैव सदा भाति देवो देवोखिलेश इति श्रीमदध्यात्मरामायणे उमामेश्वर संवारे बालकाण्डे सप्तमः सर्गः समाप्तम् इदं बालकाण्ड श्री सी सीतारामचन्द्रार्पणमथु